न कालो दण्डमुद्यम्यशिरः कृन्तति कस्यचित् कालस्य बलमे तावत् विपरीतार्थदर्शनम् आसादितमिदम् घोरम् तु मुलम् लोमहर्षणम् पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् अयो निजाम् रूपवतीम् कुले जाताम् विभावसोः को नु ताम् सर्वधर्मज्ञाम् परिभूय यशस्विनीम् पर्यानयेत्सभा मध्ये विना दुद्यूर्त देविनम् स्त्रीधर्मिणीवरारोहा शोणितेन परिप्लता एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत हृतस्वान्हृदराज्यांश्च हृतवस्त्रान् हृतश्रियः विहीनान् सर्वकामेभ्यो दासभावमुपागतान् धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे क्रुद्धाम् चानर्हतीम् कृष्णाम् दुःखिताम् कुरुसंसदी। संसदि दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् इति सर्वमिदं राजन्नाकुलम् प्रतिभाति मे धृतराष्ट्र उवाच तस्याः कृपणचक्षुर्भ्यो प्रदह्येतापि मेदिनी अपि शेषम् भवेदद्यपुत्राणाम् मम सञ्जय भरतानाम् स्त्रियः सर्वा गान्धार्या सह सङ्गताः कोशिन्भैरवम् तत्र दृष्ट्वा कृष्णाम् सभागताम् धर्मिष्ठाम् धर्मपत्नीम् च रूपयौवनशालिनीम्